स चक्रेतात लोकानां विनाशाय महामनाः सर्वेषामेव कात्स्न्येन मनः प्रवणमात्मनः इच्छन्नपचितिम् कर्तुम् भृगूणाम् भृगुनन्दनः सर्वलोकविनाशाय तपसा महतैधितः तापयामास तान् लोकान् सदेवासुरमानुषान् तपसोऽग्रेण महता नन्दयिष्यन् पितामहान् ततस्तम् पितरस्तात विज्ञायकुलनन्दनम् पितृलोकादुपागम्य सर्ववूचुरिदम् वचः पितरवूचुः और्वदृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक प्रसादं कुरु लोकानाम् नियच्छ क्रोधमात्मनः नानीशैर्हितदातात भृगुभिर्भावितात्मभिः वधो ह्युपेक्षितः सर्वैः क्षत्रियाणाम् विहिंसताम् आयुषा विप्रकृष्टेन यदा नः खेद आविशत् तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयं। निखांतं यच्च वैवित्तम् केनचिद्भृगुवेश्मनि वैरायैव तदा क्षत्रियान् कोपयिष्णुभिः किम् हि वित्तेन नः कार्यम् स्वर्गेऽप्सूनाम् द्विजोत्तमा यदस्माकं धनाध्यक्षः प्रभूतं धनमाहरत् यदा तु मृत्युरादातुम् न शक्नोति सर्वशः तदास्माभिरयम् दृष्ट उपायस्तात उपायस्तातसम्मतः